श्रीमद्भागवतमहापुराणं चतुर्थीस्कन्ध षष्ठोऽध्यायः रक्तकण्ठ खगालीकस्वरमण्डितषट्पदं करहंस कुलप्रेशं करदण्ड जलाशयं वनकुञ्जरसंघृष्टहरिश्चन्द्र नवायुनाम् अनिपुण्यजनस्त्रीणा मुहुरुन् मथियन्मनः वैदुर्यकृतसोपानावाप्या उत्पालमालिनिः प्राप्तं किं पुरुषे दृष्ट्वा त आराद सुरवटम् सयोजनसतो स्थेधः पादो न विटपायतः पर्यङ्कृता चलच्छायो निर्णीडस्तापवर्जितः तस्मिन् महायोगमये मोक्षो शरणेऽसुराः ददिशूषुमाशीनं त्यक्तामर्षमिमान्तकं सनन्दनाद्यै महासिद्ध्यै शान्तै संशान्तविग्रहम् उपास्यमानं सख्या च भर्ता गुह्यक रक्षसां विद्या तपोयोगपथमाश्रितं तमधीश्वरं चरन्तं विश्वसृहृतं वासल्याल्लोकमङ्गलम् लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् अंगेन सध्या भ्ररुचा चन्द्रलेखां च बिभ्रतम् उपवेष्टं दर्भमय्यां बृहस्यां ब्रह्मसनातनं नारदाय प्रवोचन्तं प्रिक्षते शृण्वतां शतां विद्वौरौ दक्षिणे सव्यं पादपद्मं च जारुणे बाहुम् प्रकोष्ठे क्षमालाम् आसीनम् तर्कमुद्रया तं ब्रह्म निर्वाणसमाधिमाश्रितम् विपासितम् गिरिशम् सलोकपाला कक्षाम् सलोकपालामुनियो मनूनाम् आद्यम् मनुम् प्राञ्जलयः प्रलेमुः सा तूपलभ्या गतमात्मजोनिम् से अभिवन्दिताघ्रे उत्थाय च कृषीर्षाभिवन्दनम् अहर्तपं कस्यचैव विष्णो तथा परे सिद्धगणामहर्षिवीर्ये वै समन्तादनुलीलोहितम् नमस्कृतप्राहशशाङ्कशेखरं कृतप्रणामम् प्रहसन्निवात्मभो ब्रह्मोवाच जाने त्वां जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः शक्ते शिवस्य च परं यत्तद्ब्रह्म निरन्तरं त्वमेव भगवन्नेतशिवशक्तो सरूपयो विश्वंसिपाशंसि क्रीडन्नपटो यथा तमेव धर्मार्थजुघाभिपद्ये दक्षेण सूत्रेन सदर्जिताध्वरं तयैव लोके वसितासि सेतवो या यान् ब्राह्मणान् सते धीतव्रताः तं कर्मणां मङ्गलमङ्गलानां करतु स्म लोकं तनुषेषु परं वा अमङ्गलानां च तमिस्रमुल्बणं विपर्ययकेन तदेव कस्यचि न वैशतां तच्चरणार्पितात्मनां भूते स सर्वेष्व तव भूतानि चात्मन्यपृथग्विदृक्षन्तां त्रायेण रोषोऽभिभवेद्यथा पशुम् पृथग्भिधं पृथग्धिय कर्म दृषोऽशया परोदयेनार्पृथिदृजोनिशं परान् दुरुक्तये विदृम्बितो दन्तरुन्तुदा तान् मा वधीदैववधानवं भवद्भिद यस्मिन् दुरन्तया स्पेषधिय पृथग्भिध कुर्वन्ति तत्र शनुकम्पया कृपां न साधो दैवबलात्कृते क्रमम् भवान् तु पुंस परमस्य मायया दुरन्तया स्वेष्टमती समस्तृते तया हतात्मस्वनुकर्म चेत् स्वानुग्रहं करोतु मिहार्हसि प्रभो कुर्वध्वरस्योद्धरणं हतस्य बोतया समाप्तं मनो प्रजापते न तव भागिनो ददो कुयज्जिनो येन मखो जीवताद्यजमालोऽयं प्रपद्येताक्षिणीभग त्रिगोष्मशृणी रोहन्तो पुष्णो दन्तासपूर्ववत् देवानां भग्नगात्राणां नृत्वि नृत्विजां चायुधास्मभि भवतानुगृहीतानाम् आशुमन्यो सुनातुरम् एषते रुद्रभागो सो यदुच्छिष्ठो ध्वरस्य वै यज्ञस्ते रुद्रभागेन कल्पतापद्ययज्ञहन्ते शैमद्भवते महापुराणे प्रंशां चयितायां चतुर्शस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः